कृष्णमुखावै देवाच्छन्दोभिरिमान्दाननपजय्यमभ्यनयनयद्विष्टक्रमान् क्रमदेविष्टदेव भोत्वा यजमानश्छन्दाभिरिमान् लोकाननपजेयमभिजय ज विष्णाक्रमास्तु गायत्रे वैशिवेष्टु भवन्तरिक्षञ्जागते जौरानष्टु भेट्यच्छन्देवान् यथामभिजय च प्रजापतिरज्ञमसृजतृष्ट परागेतवेदनान् वेदक्रन्थज देवनामै स्वाज्ञन्धाभावारुन्धरि ेदया प्रियन्धामावरुन्धरेश्वरो ैवाश्च दक्षिणा पर्यावर्तते स्वमेव वेद्यवर्तते तस्मात् दक्षिणाद्ध आत्मना वेद्यावत् आहित्यैवावृतमनुवर्तते शुनशी गतिं वरुणो बृह्णां वारुणे या वेद आत्मानं वरुणपाजालमुञ्च ग्रह्णादिजमुखां प्रतिमुञ्चत उदत्तमं वरुणपाशमस्मदित्याहात्मानमेवेतया वरुणपाशान् द्रवस्तिष्ठा विजाचरीत्या विषये समर्थयत्यस्मिन् प्रमधि राष्ट्रमेवास्मिन्ध्रुवमखलिजङ्कामयेत् राष्ट्रग्रस्याचितं मनसाध्यायेत् राष्ट्रमेव भवत्यग्रहन्मृतास्थादित्याह त्याहतमस्तावन्ति ज्योजिताकारित्याहज्योतिरेन्दोभिदेवारिदावर्ष्पेण समाना सप्तमेवेन गमयदिष्ट न वीनवत्सप्तेऽर्थानन्दनाज्ञ प्रियं धामा वारुन्धाज्ञेण प्रियं धामा वरुन्ध एकादशम्भवस्यैकथैव यजमाने वेद्यन्दधामेन वे देवा अस्मिल्लोकाद्रुवञ्छन्ताभिनस्मिन् ेव खलु वा नद्रोपञ्यद्वा सप्रै यद्वा सप्रेणपतिष्ठत इवमेव तेन लोकमभिजयतेभ्यश्चक्रमतेवदे लोकमभिजय दिवोर्वेद्यः प्रक्रमत्युत्तरेज्ञरुपतिष्ठते तस्माद्योगे स्तरे मुष्टि करोति वाज यच्छति यज्ञस्य धृत्यै अन्नपदेऽन्नस्तनो देहेत्याहाग्नपदस्त देवा स्वा अन्नम् प्रयच्छत्य न वेवस्य सुष्मि नयेत्याह यक्ष्मस्य दिवा वेतदाः प्रदातारन्तारिणवोन्नो देहे दिवदे च दष्पदयत्याहाशिषमेवेतामाधास्तव दत्वा विश्वदेवाह प्राणाविवेश्व त्यभिरत्या हयस्पादेवैच्छदेशन्दान्दाभिदेवादिच्छन्दया वस्पवा यथान्दवस्मैवें समानानाति सद्वजे भवति सत्त्वमेवणं गमयधिप्रेदज्ञे ज्योतिष्पादिकायेत्या ह ज्योतिरेवास्मिन्दधा अग्रे तहि नस्ति गम् विलस्ति माहिगम् देस्तलवा प्रजा इच्छाह प्रजाक्लेवेनगं समयति रक्षागं सिवा देतत्यक्गं समयं बेकदना उत्सर्गत्कन्दृत्त्वा हरणकर्दा महात्त्या अनसावह चवजिदिमेवाक्पिन्दधारयत्स्मादनस्पे चरति चादछेनामवजितसफा पवजितिमान भवतिदेवं भेदसविधाज्ञन्दवस्तते दिगृतादिक्तामवसिके यु सभ्युष्पदादित्यम् क्रियते तादृगेव तद्गायत्र्या भ्रा गायत्रो हि ब्रा भाजन्यस्य त्रैष्ट्य भो हिराजन्या शुभस्म प्रवेदयत्यप्सुयो निर्वाग्निस्वादेवैन योनिङ्गमयति प्रवेदयतिष्ठाम् गमयति भस्मप्रवेदये ज्योतिष्पदेवास्मिन् पशोनस्मप्रवेदय त्रिपुनरुद्रा रिपुनरुदे प्रजामेव पशुधानस्तादित्या रुद्रापसभस्समिन्धतामित्याहैतावादाग्रे समैताभिरे विन्धे बोधा च बोधे क्युपतिष्ठते बोधय तस्मात् श्रुत्वा प्रजा प्रबुभ्यन्ते यथा स्थानमुपतिष्ठते तस्माद्यथा स्थानम् भजवः पुनय क्योपतिष्ठे म्पीया हिरो वै यमन्ते भैजनमस्या निर्या चाज्ञिञ्च नृते यमालींसज नुते पेदे यद्ध्यवसाययति यम एव दे भयजनमस्ते निर्या चात्मने नृतेष्वग्रेणस्यानामदमिच्छन्तो न विन्दन्ते देवा एतद्यजुरपश्चन्नपेदे यदेते नाध्यवसायत्य नामृतदेव हन्तैश्वा नरस्य रोपगौरूपेणैव वेष्वानबन्धवोषाण्ष्टा प्रजनैयुष्ट्यामेव प्रजनमेत्यञ्चिनुथोषम् ज्ञानय निश्चेतत्पशो नास्ताब्रोतामस्कौषहे नजमाधेत्तरस्यामदधात्तवोषा अभवदे तस्यायत्यजमाधेत्तरमुष्यामदधात्तरश्चन्द्रम कृष्णवोषामण्डलाध्याये जा वा ज्ञ विश्वामित्रस्य लोकम् भवत्येतेन मे विश्वामित्रोऽज्ञे प्रियन्धा मावारुन्धाग्ने वेतेन प्रियन्धा मावरुन्धे छन्दाभिर्वे देवास्तुभर्गम् लोकमायन्त्र प्राजेतुपदधानि चत्वारि छन्दायुं छन्दभिरेव त्यजमानस्वभर्गम् लोकमे जितेजाुंसभर्गम् समेते उपादश तद्वश्चात् समे चेताभिर्वेदेशाद्वयपरस्तात् समेते उपदधा विद्वय पश्चात् समेते दिशासवो वैच्छन्दासो नेवाष्टावुपदधा चष्टाक्षरागायत्रीगायत्रो वाग्यस्तञ्चलेष्टावपदधात्यष्टाक्षरागायत्रीगा यत्रे च वर्गल् लोकमञ्जदा वेदु वर्गश्च लोकश्च प्रज्ञा त्रयोदशलोकं वृणा उपदधात् वेकविः सम्पद्यम् तिष्ठा भावेकविकंशः प्रतिष्ठा कालुहपत्यगेकविकंशस्यैव प्रतिष्ठा कालुहपत्यपथप्रतिष्ठते प्रत्यज्ञम् च ज्ञानस्तिष्ठति एवम् वेद पञ्चजिते गञ्जन्वेदम् पथमञ्जिन्वानः पान्तो यज्ञः पान्ताः प्रसवो यज्ञमेव पशो नवरुन्धे त्रिजते गञ्जन्वेदीयञ्जिन्वानश्रेयमे चन्वेदृष्टिकञ्चन् बाणे कथा वेदु वर्ग लोकये कमृते मधुवर्गम् लोकमे त्रिपुरेशेनाभ्यो हरितस्मान्सेनाश्चन्दतश्चर्मा भवति भवन्ति पञ्चभ्य पुरे जैनभ्यो हरित सम्पद्यन्ते यश्च पुरा गर्यश्चोखायागुम् समितमिति च तसृभिः सन्निवपति चत्वारि छण्डागुंसि छण्डागुंसि खलु वा प्रियातनो वैनौ तनुपासुंसामितमित्याहतस्मात् विहरति तस्मात् ब्रह्मणा क्षत्रम् वे श्रुतभिर्वायैरन्दिक्षयन्ति मातेव पुत्रं पृथिवे पुरेत्या हुभिरेवैन्देक्षयत्तर्युञ्जलिवेश्वानर्याशिख्यमादत्ते सदयत्येवैनं नैरृते कृष्णातिस्रस्तुषभक्वा भवन्ति निरत्यैवा हेतद्भागधैयं यत्तुषा निरृत्यै रूपं कृष्णगं रूपेण निरवदैवान् यन् देवारृत्यै दिक्ष्वा जन् निरपदगतेष्वकृपधारि वैतद्वै निरज्यागतनग्रस्वगेवायतने निरजन् निरपदयते शिक्ष्यमभ्युपदधा जनैरमे पाशः साक्षात् देवैरन्निरति पाशान्मुञ्चरिति स्वमुपदधादित्रयधा विहिता वै पुरुषो यावादेव पुरुषश्च पराजेरुपदधादि पराजे वा जम्प्रलय प्रदेशमायन् जन पतिष्ठन्तमुपतिष्ठन्त जलजि लोकयैव जलित्वा भूतादेव लोकमुपावर्तन्तय गोपतिष्ठन्त ये कथैवन्दशति निवेशनः सङ्गमनापसो नामित्याह प्रजा वै वसवस प्रजगैवेणम् पशुभिः समर्थयन्ते पुरमात्रे न विमेते यज्ञै नवे पुरुषः संवितो यज्ञपरुषैवैनं विमिमेते याभान् पुरुषभूर्भवास्ताभान् भवत्ये पुरुषैवेर्यम् वैर्ये नैवैनम् विमिमेते पक्षे भव दिनख्य पक्षः पलितुमृहत्तरत्रया पक्ष्यागे यागं च भवतस्तस्मात् पक्षप्रभयागं शिवयागम् शिव्याममात्रौ पक्षौ पुच्छन् च हवत्येतावद्वे पुरुषेणुनाग्नेयोजुषा कृषदेव्यावृत्तेषद्गवेन कृषदिषद्वारुतेण कृषदि यद्वादश गवेन संवत्सरेणवेयं वाग्नेभेच्छैजद्विगुणमपश्यत्कृष्टञ्चाकृष्टं च कृतो वाज्य राज्यत्कृष्टम् ष्टञ्च भवत्यस्यायद्विष्टञ्चाकृष्टञ्च भवत्यद्रायात्यक्षिणाभिलभ्यानुभवेद्यक्षागुंशान्ये जवत्सलत्यैजा वेदेव मनुष्याणागु न्तादितामेवै नानसृजत्य सोऽखलीमां चौवाहारित्य प्राणप्राणमेवै नानसृज दक्षिणार्यावर्तन्ते स्वमेव वीर्य मनुभर्यावर्तन्ते तस्मात् दक्षिणार्थात्मना वीर्यावत्परसौहारित्य स्वस्ति स्वस्तिखेयादय चोषधे ब्रह्मणान्नमवरुन्धेऽर्के कृष्णी गजय चतुर्धशन्भवति सप्तग्राण्यावोढदय सप्तान्याभयेन अवरुध्यान्नस्यान्नस्य भवत्यन्नस्यान्नस्यावरुध्ये रुष्टै भवति कृष्णै चोषदय प्रतिष्ठन् त्रेदं भवति प्रजात्यै शुभमति द्वादश मासाः संवत्सर संवत्सरेण स्वाजति वरुद्ध श्री यादवरुद्धे न व्यध्येतये वनस्पदीनां परग्राहश्चाध्वे विप्राक्षेदनवरुद्धस्यावरुद्धे दिग्भ्य लोक्षा समस्य दिशामेव जन्तस्ये विषोऽवरुन्धे शोधुका भवति यस्तस्याम् ऋषि भवत्युत्तरवेदिमुपभवत्युत्तरवेद्यागज्ञश्चीयते च प्रसो वामुत्तरवेदे प्रसोदेव वरुन्धे सो यज्ञपरषोऽन्तरित्ये अज्ञेतवश्रवोपयति चिकतानिपत्येतद्वाज्ञा नरस्य सोक्तव्यं सोक्ते नैव वेश्वानरमवरुन्धे षड्व्यन्नेव षड्वार्दवः संवत्सरः संवत्सरावेश्वानरः सा नरमवरुन्धे समग्रं वेदामेतच्छन्दः समग्रमनप्रजा प्रजायन्ते यदेकता निमपदे प्रजानायेन्द्रभृ वज्रं प्राहरक्षत्रेन्द्र्यन्तर्करा भवन्तच्छर्कराणां वज्रेच्छ भिरज्ञम् परिमिणोदिभ्रेणोन् परिगृह्णाति तस्मात् वज्रेण पदवः परिगृह्णास्तस्माश्च यानश्च यथो नोपहरते त्रिसप्ताभिपशुकामश्च परिमिणयात् सप्तमीशीर्गण्याः प्राणा प्राणा पदवः प्राणैरेवशो नवरुन्धे त्रि नमाभिर्भ्यादुम् यपदस्त्रिपदमेव वज्रगम् सम्भ्रत्यभ्यानुम् याय कृत्यावलमिनाभिः परिमिणयादवमितस्यावरुध्ये यङ्कामयदाभस्यादित्यवरमित्य शर्करास्य कदा व्यो हेत परिगृहेतनेवास्य विशोचेन एव्याभ्यां भनस्य गायत्रोऽभिभ्रां भनस्कृष् राजन्यश्चत्रैश्च भो हि राजन्यश्रय्यं भारहस्पत्यमेधो नोज्ञं प्राविशत्स्वज्ञे कृष्णो रूपं कृतो दायतों प्राविशत्सवान्तरश्व ेवमेधो स्वम् प्रापि सत्तमेवावरुन्धे प्रजापतिनाग्निश्चव्य इत्याहु प्राजापत्योयसमाग्रमयनि प्रजापतिमैवाग्निञ्चिनुते पुष्करपन्दमुपदधानियो निर्वाज्ञेः पुष्करवर्णगम् सयोनिमेवाग्निञ्चिनु देवाम् पृष्ठवदेत्युपदधात्यमाम् वाष्करवर्णगम् रूपेणुपदधानि ब्रह्मजज्ञानमिति रुक्ममुपदधाति ब्रह्ममुखा वै प्रजापय प्रजा असृजत ब्रह्ममुखा एव तत् प्रजायजमानसृजते ब्रह्मजज्ञानस्माणा यं वेद ब्रह्मवादनावृथिव्यान्तरे क्षेण देव्यज्ञश्चेदव्ययति यत् पृथिव्यान् वेद पृथिवेत्मजन्नौषधयो न न्तरिक्षयन् वेदान्तरिक्षको विर्पये न व यद्पयेन्नपर्यमुपदधा चमृतं वेहिरण्डमुपदधाति यजमानलोकस्य विसृत्य आदृन्दमलोपदभ्य पशूनाञ्च यजमानस्य च प्राणमपि दद्भ्या दक्षिणतः प्रान्तमुपदधानिकन्नपशूनाम् जयजमानस्य च प्राणमपि दधात्यथो कल्विष्टका ेमुदथा जिन हि मे दक्षिणाङ्कापर्यमयेमुत्तरा मौदुम्बरें तस्मादस्या उत्तराज्यस्य पौर्णाङ्कापर्यमये वज्रवाराज्यं वज्रः काष्पर्यावज्रेणैव येज्ञस्य दक्षिणद्वारक्षागस्य वहन्ति तद्धः पौर्णामौदुम्बरें वधवा वैदध्योर्गुदम्बरः पशुष्पेमोर्जन् दधादि धाति पूर्णे ममुष्मिन् लोकमुपतिष्ठेश्चे विराज्यजा उपधाति विराज्येवाकिञ्चिन यज्ञमुखे वै प्रियमाणे यज्ञगौ रक्षाकं तिखागं सन्ति यज्ञमुखगौ रुक्मा यद्मं व्याघारयति यज्ञमुखादेव रक्षागस्य वहन्ति पञ्चभिर्व्याघारयतिकान्तो यज्ञो या यज्ञस्तस्माहन्त्यक्षया व्याघालयति तस्मादक्षया भजवाङ्गानि प्रहरन्त्य प्रतिष्ठित्यै स्वय मा स्वयमाधन्ये मामेवोपधत्ते शोभ्रामयति प्राणमेवा प्राजापत्यो वाष्पः प्रदापदने प्रथमेष्टकौपधीयमानावशोनाञ्जमानस्य प्राणमपि दधाति स्वयमाधर्णाभवति प्राणानामुत्सृष्ट्यासोस्यालुख्यात्याज्ञा व्यत्याहुरे स्वानो यद्मै प्रथमाविष्टकां नियष्कृतां प्रयच्छेत् तां रां भणश्चोपदध्यातामग्नेवरो वारेणो विद्वामिष्टकां वरधादित्रेण वराहं दध्या यो वे प्राणा प्राणानागस्पृत्ये द्वावेव प्राणावेकये गोहि प्राणः पशुर्वावेशन्न खलु वै पशवाय वदे रमन्ते दोर्वेश कामदथापशूनां धृत्ते द्वाभ्याम् प्रतिष्ठत्ते काण्डाः काण्डात् प्ररोहन्तेत्याह काण्डेन काण्डेन तेजा प्रतिष्ठत् सहस्रेण सेहेत्याहदाहस्य प्रजापतिय प्रजापतेराप्त्यै देव लक्ष्मम् वै प्रियालिखिता तामुत्तरलक्ष्माणम् देवा उपादधराधरलक्ष्माणमधुरायम् कामये तपसीयान् चालित्युत्तर लक्ष्मानन्दस्योपदध्याद्वसीयानेव भवमये दपापीयाञ्चाणित्यधर लक्ष्माणन्दस्योपदध्यादसयो भावयति पापीजा भवतिभ्येव लोकेभ्याभ्यातव्यमन्तरेत्यङ्गिरथस्वभर्गं लोकं यतः पुरोटादः कूर्मो भूत्वा प्रासत्पद्यत् कोर्ममुदथाक्षेत्रविरञ्ज सानयत्येवमेवनं कौर्मस्वर्गं लोकमञ्जसानयति मे भवायेष यत्कोर्णमुमेवमेधं पश्यन्तः पशवमुपतिष्ठन्ते श्मशानं वा नेतत्क्रियते यन्मृतानां पशो नागंशेर्षान्युपधीयन्ते यज्जीवन्तं कोर्णमुल्तेनाश्मशानयद्वास्तव्यो वागेभ्यस्पदयत्येवेन ग्राम्यं वा येतदह्णं यदध्यारण्यं मधुयत् दद्रामधु मिश्रेणा गणकृपयस्यावरुध्ये महेद्याः पृथिवे जनयत्याभ्या मे यनः परिगृह्णादि प्रामुपदधाति वर्गस्य पुरस्ता प्रत्यञ्च नृते प्रविशति लोकमुपधा एषा वा अग्नेर्णाभिस्तनाभिमेवाग्निञ्चि नृते हिंसाया औदुम् जमेवावृन्धे मध्यत उपदधा जमध्यत स्वावोर्जम् दधा स्वाहम् मध्यदभूर्जाभुञ्जत यद्भवति प्रजापतिना युजज्ञमुखे न संवि न हन्त्यन्नमेवागर्वेच्चोपदधा जविष्णर्वे यज्ञो वैष्णवामनस्पतयोज्ञ एव यज्ञम् प्रतिष्ठापयति ेषाम् वा एतल्लोकानाम् ज्योतिस्तम्भदय दुःखाय दुःखामुपदधास्तेभ्यदेव लोकेभ्योतिरवरुन्धे मध्यरमुपदधाति मध्य लगे वा स्मै ज्योतिर्दधाति तस्मान् मध्य लो ज्योतिरु स्महे जिगणाभिक्पूरयत्ते तद्वा अग्ने वै स्वानरश्चेणैव रक्षोधकस्यादित्योनान्यस्योपदध्याक्षोधक देवोन् कामयेतानुपदस्य मध्यादितिपूर्णान्तस्योपदध्यादनुपदस्य देवान्नमत्ति सहस्रं वेणपशूनान्यच्छति सहस्रमण्ये पदवो मध्यय पुरुषेण तथापदक्षामेवैनद्गमय नित्यर्थं वा एतत्प्राणेन मेभ्यं यत्पुरुण प्राणामृतम् हिरण्यम् प्राणेषु हिरण्यशङ्कान् पत्यस्यति प्रष्ठामेवैनद्गमयित्वा प्राणे समर्थयति दद्धा मधु मिश्रेण पूरयति पथव्यवधानेङ्क्येण मेद्धत्वा यद्ग्राम्यम् वा ये दन्नै्यदध्यारण्यम् मधु यद्दध्या मधुमिश्रेण पूरयत्युपयस्यावरुद्धे वसुशीर्षान्युपदधानिभावे वसुशीर्षा धेयङ्कामयेज स्यादिति विशोचेनाजतस्य पदध्यात् विशोचयेवास्मात् पशोन् दधात्म्य पशुरेव भवति पदध्यात् समेतधा दिवसुवानेव भवति पुदस्तात् प्रदीते नश्वपदधा दिवश्चात् प्राजेन वृभस्यापशवो वा अन्येको स्तादेवस्मै समेतावन्तर्थानुवारेण प्रदधा देत्पुतीत्याह्येव पशुभ्यन् पशोचुजमनोत्सृजितस्मावत्पशो माम् प्रजायमानामारण्या स्वी ैवृन्धे यत् समेचीनम् पदुचीर्णेपदध्या ग्राम्यान् पशोन्धुंसुकाश्चर्योचेनमारण्यालयेवन्धेया सर्पेण ग्राम्यान् पचो निरस्ति नारण्यान स खलोपधेयमेव यदुपदरान्धेया सर्पे यज्ञ ये तय न शांतम पशुर्वाणे जयदग् ने खलु वा पशोर्विक्रियते यत् प्राचीनमेष्टका निः क्रियते रेतोपस्यापस्या उपदधा धियो तथादि नेतो तथाधिपञ्चोपदथाधिपान्ताः पशवः पशोने वा प्रजनयधिपञ्च दक्षिणतो भद्रो वा पस्याज नैव यज्ञस्य दक्षिणतो रक्षागस्य वहन्निपञ्चपश्चात्यादे उपदधादिपश्चात् प्राचीनगौरेतो धीयते पश्चादेवास्मै प्राचीनगौरेतो दधा त्रिपञ्च पुरस्तात् प्रदेते नृपदधा त्रिपञ्च पश्चात् प्राचेत्तस्मात् प्राचीनगुरेतोधीयते प्रदेते प्रजा जायन्ते पञ्च प्रदच्छन्दस्या पशुभूमेन्दस्या पशुमेव प्रजातान् स्वभायतनमभिवर्यो ह ैता अवस्या अपश्यता उपाधत्तवादिमान् नाज्यदह जलपस्या उपदधा यस्यानलिदा यो वाच हेयत् स ब्रह्मणान्न यस्यैता उपधेयान् नैयमुचैना एवं प्राणान् तथा जलस्माद्वदन् प्राणन् पश्यन् शृण्वन् पशुज्जाय पुरस्तादुप तथाभिर्दाधाराय दक्षिणा विश्वकर्मेति दक्षिणतो मलयेवताभिर्दाधारायम् विश्वव्यचारिमस्ताच्चक्षुरेवेताभिर्दाधारेगमुत्तरा स्वरित्युत्तरश्रोत्रमयमेताभिर्दाधारेयमुपरिमदृत्युपरिष्टाद्वाजमेवेताभिर्दाधारोपवे दक्षापदोऽप्रहरन्ति प्रतिष्ठिते यास्प्राजेस्ताभिर्वजिष्ठार्धा दक्षिणाताभिर्भरद्वाजो याः प्रदेजेस्ताभिर्विश्वामित्रो या उदेजेस्ताभिर्गमदग्निर्यावोर्ध्वास्ताभिर्विश्वकर्माय एव मेतासामद्धिं वेदर्ध्वात्यैव यमादाभेवं बन्धुतान् वेदबन्धुवान्भवजय ेन कल्पते प्राणभदौ संयनौ प्राणानेवास्मिन् धित्वा संयद्भ्यसंयच्छति तत्संज्ञागं संयक्तमधो प्राण एवानन्दधारितस्मात् प्राणापानौ सञ्चरतो विशोचेरुपदधार ष्पञ्चौ प्राणापालौ यद्वा अग्नेन संयदवसुवर्ग्यवस्थिवत्सुवर्गत्संयतमुपदधाेन यच्छदि सुमेव कश्च विर्मयः कृतमया नित्याहवयोभिरेव यानवन्धे सर्वतो मायवते फलन्ति तस्मादेव सर्वतः पवदे गायत्रे पृष्टजगत्यष्टक् पङ्क्त्या सह बृहत्युष्ण्यः त्रिमशोचेभः शिम्यम् दत्वा त्रिपदाय विदुष्पदा त्रिपदाया झषट्पदा सन्दायामिच्छन्दात् शोचेऽभिः शिं्यन् दत्वा महानान्दीरेवदयो विश्वासा प्रसोभरेः मेध्या विद्युतो वाजः शोकेभिः शिम्यम् दत्वा रजदाहरेयुज्यन्ते कर्मभिः अश्वस्य वायिनः प्रति शोचेभिः शून्यम् दत्त्वा नारे देवप्रयाणामविचिम्बन्तु मनीषयाः देवानाम् भक्नेऽर्पिषः शोचेऽभिः शून्यम् दत्त्वा कुविदङ्क एवमन्तो जवन्त्यथा ताञ्चन पूर्वम् वियोज हे हैषाम् क्षिशास्तिकस्ते गात्राणि शिम्यति कौलेशमिता कविः कृतवस्तरुधापश्रमितारो विशासतोधा यथा शिवेभिः श्रृम्यन्तत्वा देव्याद्धर्यवस्पाक्षन्द्रविशशासतो गात्राणि पर्वशस्ते शिवाकृ शृं्यन्तः अर्धमासाः परोगंषिते मासाम् वि शिम्यन्तः अहोरात्राणि मरुतो वेष्टकम् सोदयन्तु तेऽन्तरिक्षेण वायुश्चित्रम् भिरज्योऽस्ते नक्षत्रैः सह लोकम् कृणोतु साधुया सन्ते परे यद्भ्यो गात्रेभ्यः समस्त्वपरेभ्यः समस्त्वभ्यो मद्यभ्यः Oh uh...